भगवद्गीता चाप्टर् फिफ्टीन् वर्सस् वन् टु टेन् अध पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधशाखमश्वद्धं प्राहुरव्ययं चन्दांसि यस्य पर्णानि यस्संवेद सवेदवे अध चोर्ध्वं प्रसृदास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः अधश्च मूलान्यनुसन्दतानि कर्मानुबन्धीनि मनुष्यलोके नरूपमस्येहस्तदोपलभ्यते नान्दो न चादिर्न च चा अश्वद्धमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन चित्वा तदः पदं तत्परिमार्गितव्यं यस्मिन् गदाननिवर्तन्ति तमेव चाद्यं पुरुषं प्रपद्ये यदप्रवृत्ते प्रसृता निर्मानमोहाजिदसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ता सुखदुःखसप्नैर्गच्छन्त्यमूढा परमव्ययं तत् न दद्भासयते सूर्यो न शशाङ्गो न यद्गत्वा न निवर्तन्ते तद्धामपरमं मम ममैवांसो जीवलोके जीवभूतः सनातनः मनःश्रस्तानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्चाप्युत्क्रामरीश्वरः गृही त्वैदानि संयादि वायुर्गन्धानि वाशयात् श्रोत्रं चक्षुस्पर्शनं च रसनंघ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवदे उत्क्रामन्दं स्थितं वा विभुञ्जानं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः भगवद्गीता चाप्टर् फिफ़्टीन् वर्षस् लेवेन् टु ट्वेण्टि यदन्तो योगिनश्चैनं पश्यन्त्यत्मन्यवस्थितं यदन्तोऽप्यकृदात्मानो नैनं पश्यन्त्यचेतसः यदादित्यगदं तेजोजगद्भास यदेखिलं यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धिमामकं गामाविष्यज भूतानि धारयाम्यहमोजसा उष्णामि चौषधि सर्वसोमो भूत्वा रसात्मतः हं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायो पचाम्यन्नं च दुर्विधम् सर्वस्य चाकं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञानमपोहनं च वेदैश्च सर्वैरहमेव वेद्यो वेदान्धकृद्वेदविदेव चाहम् द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूढस्थोऽक्षर उच्यते यो लोगत्रयमाविश्य बिभर्त्यव्यय ईश्वरः यस्माक्षरमधीतोऽहमक्षरादपि चोत्तमः अधोऽस्मि लोगे वेदे जप्रदिद पुरुषोत्तमः यो मामेवमसम्मूढो जानादिपुरुषोत्तमम् स सर्वविद्भजति मां सर्वभावेन भारद इति गुह्यतमं शास्त्रमिदमुक्तं मयानक एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारदा ॐ तत्सत् इति श्रीमद्भगवद्गीतासु पञ्चदशोऽध्यायः